अथ द्वितीयोऽध्यायः सञ्जय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विषेदन्तमिदम् वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वाकष्मलमिदम् विषमे समुपस्थितम् अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन क्लैब्यम् मास्मगमपार्थ नैतत्त्वय्युपपद्यते क्षुद्रम् हृदय दौर्बल्यम् त्यक्तो परन्तप अर्जुन उवाच कथं भीष्ममहं सङ्ख्ये द्रोणञ्च मधुसूदन इषुभिप्रतियोत्स्यामि पूजार्हा वरिसूदन गुरु न हत्वा श्रेयो भोक्तुम्भैक्षमपीह लोके हत्वार्थ क्वामास्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धा न चैतद्विद्मत्कतरर्नो गरीयः यद्वा जयेमय दिवा जयेयुः यानेवहत्वानजिजीविषामः जी ते वस्तिताः प्रमुखे धार्तराष्ट्राः कार्पण्यदोषोपहतः स्वभावः पृच्छामि त्वाम् धर्मसम्मूढचेताः यच्छ्रेयस्यान्निश्चितम् रूहितन्मे शिष्यस्तेऽहं शाधि माम् त्वाम् प्रपन्नम् न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्चोषणमिन्द्रियाणा अवाप्यभूमा वसपत्नमृद्धम् राज्यम् सुराणामपि चाधिपत्यम् सञ्जय उवाच एवमुक्त्वा हृषिकेशम् गुडाकेशः परन्तप न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीम् बभुवः तमुवाच हृषीकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदं तमिदं वचः श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वम् प्रज्ञावादंश्च भाषसे गतासू न गतासुश्च नानुशोचमिति पण्डिताः न नत्वेवाहं जातुनासम् नत्वं त्वम् मे मे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन् यथा देहे कौमारम् यौवनम् जर तथा देहान्तरप्राप्तिः धीरस्तत्र न मुक्त्यति मात्रास्पर्शास्तु कौन्तेय श्रीतोष्णसुखदुःखदाः आगमापायिनो नित्याह तां स्थितिक्ष स्वभारत यं हि न व्यथयन्त्येते पुरुषम् पुरुषर्षभा समदुःखसुखम् धीरम् मृतत्वाय कल्पते नासतो विद्यते भावः नाभावो विद्यते सतः उभयोरपि दृष्टोऽन्तः त्वनयोस्तत्त्वदर्शिभिः अविनाशितु तद्विद्धि येन सर्वमिदं ततम् विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति अन्तवन्त इमे देहा नित्यस्योक्ता अनाशिनोप्रमेयस्य तस्माद्युध्य स्वभारत य यश्चैनम् मन्यते हतम् उभौतो न विजानीतः नायम् हन्ति न हन्यते न जायते मियते वा कदाचित् नायम् भूत्वा अजो नित्यशाश्वतोऽयम् पुराणः नहन्यते हन्यमाने शरीरे वेदाविनाशिनम् नित्यं य एनमजमव्ययम् कथं स पुरुषः पार्थ कङ्घातयति हन्तिकम् वासंसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि सम्याति नवानि देही नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापः न मारुतः अच्छेद्योऽयमदाह्योऽयम् अक्लेद्यो शोष्य एव च नित्यस्य सर्वगतस्थाणुः अचलोऽयं सनातनः अव्यगतोऽयमचिन्त्योऽयम् अविकार्योऽयमुच्यते तस्मादेवं विदि त्वैनम् नानुशोचितुमर्थसि अथ चैनम् नित्यजातम् नित्यम् वा मन्यसे मृतम् तथापि महाबाहो नैवम् शोचितुमर्थसि जातस्य हि ध्रुवो मृत्युः ध्रुवम् जन्ममृतस्य च तस्मादपरिहार्येऽर्थे न त्वम् शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनि धनान्येव तत्र आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवत् वदति तथैव चान्यः आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनम् वेद चैव कश्चित् देही नित्यमवध्योऽयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि धर्म्याद्धियुद्ध्राच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यदे यदृच्छया स्वर्गद्वारमपावृतम् सुखिनः क्षत्रिया पार्थ लभन्ते युद्धमीदृशम् अथ चेत्त्वमिमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि ततः स्वधर्म च हित्वा अकीर्तिञ्चाभिभूतानि कथयिष्यन्ति ते व्ययाम् सम्भावितस्य चाकीर्तिः मरणादतिरिच्यते भयाद्रणादुपरतम् मन्स्यन्ते त्वाम् महारथाः येषाञ्च त्वम् बहुमतः भूत्वा यास्यसि लाघवम् अवाच्यवादंश्च बहून् तवाहिताः निन्दन्तस्तव सामर्थ्यम् ततो दुःखतरम् मुकिम् हतो वा प्राप्स्यसि स्वर्गम् जित्वा तस्मादुस्तिष्ठकौन्तेय युद्धाय कृतनिश्चयः सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवम् पापमवाप्स्यसि येषा ते विहिता बुद्धिर्योगे त्विमां शृणु बुद्ध्या युक्तो यया पार्थ कर्म बन्धुम् प्रहास्यसि मेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धिः एकेह कुरुनन्दना बहुशाखा ह्यनन्ताश्च बुद्धयो व्यवसायिना यामिमां पुष्पितां वाचम् प्रवदन्त्य विपश्चिदः वेदवादरताः पार्थ नान्यदस्तीति वादिनः कामात्मानः स्वर्गपराः जन्म कर्मफलप्रदा क्रियाविशेषबहुला भोगेश्वरीयगतिम् प्रति भोगैश्वर्यप्रसक्तानाम् तया पहृतचेतसा व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्यविषया वेदाः निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थः निर्योगक्षेम आत्मवा यावानर्थबुधपाने सर्वतः संप्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समत्वम् योग उच्यते दूरेण प्यवरन् कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगकर्मसु कौशलम् कर्मजम् बुद्धियुक्ता हि फलम् जन्मबन्धविनिर्मुक्ताः पदम् गच्छन्त्यनामयम् यदा ते मोहकलिलम् बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नाते यदा समाधावचला बुद्धिः तदा योगमवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाष समाधिस्तस्य केशव स्थितधी किम् किमासीत श्री किम् श्रीभगवानुवाच प्रजहाति यदा कामा सर्वान् पार्थमनुगता आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदुच्यते दुःखेश्वनुद्विग्नमनाः सुखेषु विगतः स्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते यः सर्वत्रानभिस्नेहः तत्तत्राप्यशुभाशुभम् नाभिनन्दति न तस्य प्रज्ञा यदा संहरते चायम् कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जम् प्रसोप्यस्य परं दृष्ट्वा निवर्तते यततोऽप्यपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य युयुत मत्परः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायतो विषयान् पुंसः सङ्गस्तेषु उपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशाद् रागद्वेषवियुक्तैस्तु विषयान् इन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखाना हानिरस्योपजायते प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम् इन्द्रियाणाम् हि चरताम् यम् तदस्य हरति प्रज्ञाम् वायुर्नावमिवम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता या निशा सर्वभूताना तस्याम् जागर्ति संयमी यस्याम् जाग्रतीभूतानि पश्यतो मुनेः आपूर्यमाणमचलप्रतिष्ठम् समुद्रमाप प्रविशन्ति यद्वद् तद्वत् कामायम् प्रविशन्ति सर्वे स शान्तिमाप्नोति न निर्ममो निरहङ्कारः स शान्तिमधिगच्छति एषा ब्राह्मी स्थितिः पार्थ नैनाम् प्राप्य विमुक्त्यति स्थित्वा स्यावन्तकालेऽपि ब्रह्मदिर्वाणमृच्छति ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः